प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरु॑णा प्रातरश्विना प्रातर्भगं भूषणं ब्रह्मणस्पतिं प्रातः सोममुतरुद्रं हुवेम प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरु॑णा प्रातरश्विनातर्भगं प्रातर भूषणं ब्रह्मणस्पतिं प्रातः सोममुतरुद्रं हुवेम तरग्निं प्रातर प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुतरुद्रं हुवेम